अथ विंशः सर्गः तस्मिंस्तु आर्तशब्दो महाञ्जज्ञे स्त्रीणामन्तःपुरे तदा कृत्येष्वचोदितः पित्रा सर्वस्यान्तः पुरस्य च गतिश्च शरणम् चासीत् स प्रवत्स्यति कौसल्यायाम् यथा युक्तो वर्तते सदा तथैव वर्ततेऽस्मासु जन्मप्रभृतिराघवः न क्रुद्ध्यत्यभिशब्दोऽपि क्रोधनीयानि वर्जयन् क्रुद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति अबुद्धिर्वत नो राजा जीवलोकम् चरत्ययम् यो गतिम् सर्वभूतानाम् परित्यजति राघवम् इति सर्वा विवत्सा इव धेनवः पतिमा चुक्रशुश्चापि सस्वनम् चापि चुक्रुषुः स हि पुरे घोरमार्तशब्दम् महीपतिः पुत्रशोकाभिसन्तप्तः श्रुत्वा व्यालीयतासने रामस्तु भृशमायस्तो निःश्वसन्निवकुञ्जरः जगरामसहितो भ्रात्रा मातुरन्तः पुरम् वशी परमपूजितम् उपविष्टम् गृहद्वारि तिष्ठतश्चापरान् बहून् दृष्ट्वैव तु ते सर्वे समुपस्थिताः जयेन जयताम् श्रेष्ठम् वर्धयन्ति स्मराघवम् प्रविश्य प्रथमाम् कक्ष्यां द्वितीयायाम् ददर्शसः ब्राह्मणान् वेदसम्पन्नान् वृद्धान् राज्ञाभिसत्कृतान् प्रणम्य रामस्तान् वृद्धाम्स्तृतीयायाम् ददर्शसः स्त्रियो बालाश्च वृद्धाश्च द्वारक्षणतत्पराः वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहम् स्त्रियः न्यवेदयम् तत्वरितम् राममातुः प्रियम् तदा कौसल्यापि तदा देवी रात्रिम् स्थित्वा समाहिता प्रभाते चाकरोत् पूजाम् विष्णोः पुत्रहितैषिणी साक्षौमवसना हृष्टा नित्यम् व्रतपरायणा अग्निम् जुहोति स्म तदा मन्त्रवत्कृतमङ्गला प्रविश्यतु तदा रामो मातुरन्तः पुरम् शुभम् ददर्शमातरम् तत्र हुताशनम् देवकार्यनिमित्तम् च तत्रापश्यत्समुद्यतम् नध्यक्षतघृतम् चैव मोदकान्हविशस्तथा लाजान्माल्यानि शुक्लानि पायसम्कृसरम् तथा समिधः पूर्णकुम्भांश्च ददर्श रघुनन्दनः ताम् शुक्लक्षौमसंवीताम् व्रतयोगेन कर्षिताम् तर्पयन्तीम् ददर्शाद्भिर्देवताम् वरवर्णिनी सा चिरस्यात्मजम् दृष्ट्वा मातृनन्दनमागतम् अभि चक्राम संहृष्टा किशोरम् बड वा यथा परिष्वक्तश्च बाहुभ्यामवघ्रातश्च मूर्धनी तमुवाच तु राघवं राघवम् सुतमात्मनः कौसल्या पुत्रवात्सल्यादिदम् प्रियहितम् वचः वृद्धानाम् धर्मशीलानाम् राजर्षीणाम् महात्मना प्राप्नुह्यायुश्च कीर्तिम् च चा धर्मम् चाप्युचितम् कुले सत्यप्रतिज्ञम् पितरम् राजानम् पश्य राघव अद्यैव त्वाम् स धर्मात्मा यौवराज्येऽभिषेक्ष्यति दत्तमासनमालभ्य भोजनेन निमन्त्रितः मातरम् राघवः किञ्चित् प्रसार्याञ्जलिमब्रवीत् स तथा नतः प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे देविनोऽन जानीषे महद्भयमुपस्थितम् इदम् तव च दुःखाय गमिष्ये दण्डकारण्यम् किमनेनासनेन मे विष्टरासनयोग्यो हि कालोऽयम् मामुपस्थितः चतुर्दश हि वर्षाणि वत्स्यामि विजने वने कन्दमूलफलैर्जीवन् हित्वा मुनिवदामिषम् भरताय महाराजो प्रयच्छति माम् पुनर्दण्डकारण्यम् विवासयति तापसम् षट्चाष्टौ वर्षाणि वत्स्यामि विजनेवने आसेवमानो वन्यानि फलमूलैश्च वर्तयन् सा नित्तेव सालस्य यष्टिः परशुना वने पपातसहसा देवी देवतेव दिवश्च्युता तामदुःखोजितान् दृष्ट्वा पतितान् कदलीमिव रामस्तूत्थापयामास मातरम् गतचेतसम् उपावृत्योत्थितान्दीनाम् बडबामिमवाहिताम् पांसुगुण्ठितसर्वाङ्गीम् विममर्श च पाणिना सा राघवमुपासीनमसुखार्ता सुखोचिता उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे यदि पुत्र मम शोकाय राघव न स्म दुःखमतो भूयः पश्येयमहमप्रजाः एक एव हि वन्ध्यायाः शोको भवति मानसः अप्रजास्मीति सन्तापो न ह्यन्यः पुत्र विद्यते न दृष्टपूर्वम् कल्याणम् सुखम् वा पतिपौरुषे अपि पुत्रेऽपि पश्येयमिति रामास्थितम् मया सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् अहम् श्रोष्ये स पत्नीनामवराणाम् पुरा सती अतो दुःखतरम् किम् नु प्रमदानाम् भविष्यति मम शोको विलापश्च यादृशोऽयमनन्तकः त्वयि सन्निहितेऽप्येवमहमासम् निराकृता किम् पुनः प्रोषिते तद्ध्रुवम् मरणमेव हि अत्यन्तम् निगृहीतास्मि भर्तुर्नित्यमसम्मता परिवारेण कैकेय्याः समावाप्यथवा वरा यो सेवते कश्चिदपि वाप्यनुवर्तते कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते नित्यक्रोधत यातस्याः कथम् नुखरवादितत् कैकेय्यावदनम् द्रष्टुम् पुत्रशक्ष्यामि दुर्गता जातस्य तव अतीतानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम् तदक्षयम् महद्दुःखम् नोत्सहे सहितुम् चिरात् विप्रकारम् स पत्नीनामेवम् जीर्णापि राघव अपश्यन्ती तव मुखम् परिपूर्णशिप्रभम् कृपणावर्तयिष्यामि कथम् कृपणजीविका उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः दुःखसंवर्धितो मोघम् त्वम् हि दुर्गतया न हृदयम् मन्ये ममे दञ्जन्न दीर्यते प्रावृषीव महानद्या स्पृष्टम् कूलम् न ममैव नूनम् मरणम् न विद्यते न चावकाशोऽस्ति यमक्षये मम इदम् ततोऽद्यैव न माम् जिहीर्षति प्रसह्य सिंहो स्थिरम् हि नूनम् हृदयम् ममायसम् न, न भिद्यते यद्भुवि नो विदीर्यते अनेन दुःखेन च देहमर्पितम् ध्रुवम् ह्यकाले मरणम् न विद्यते इदम् तु दुःखम् यदनर्थकानि मे व्रतानि दानानि च संयमाश्च हि तपश्च तप्तम् यदपत्यकाम्यया सुनिष्फलम् बीजमिवोक्तमूषरे यदि ह्यकाले मरणम् यदर्च्छया लभेत कश्चिद् गुरुदुःखकर्षितः गताहमद्यैव परेत संसदम् विना त्वया धेनुरिवात्मजेन वै अथापि किम् जीवितमद्य मे वृथा त्वया विना चन्द्रनिभान प्रभा अनुव्रजिष्यामि वनम् त्वयैव गौ सुदुर्बलावत्समिवाभिकाङ्क्षया तदा बहुविललाप समीक्ष्य राघवम् व्यसनमुपनिशाम्यसा महत्सुतमिव लब्धमवेक्ष्य किन्नरी इत्यादर्शे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे विंशः